नेदं जानाति गहनं वनं राक्षससेवितं वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा विभक्षयिषता मां सं युष्माकमम साहं हं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभं नान्यं भर्तारमिच्छामि सत्यमेतत् प्रवीमि ते एतद्विज्ञाय धर्मज्ञयि समाचरा तामोपहत चित्ताङ्गीं भजमानां भजस्व माम् त्रास्यामि त्वा महाबाहो राक्षसात् पुरुषादकात् वत्स्यावो गिरिदुर्गेषु इच्छामि वीरभद्रं ते मामा प्राणाविहासिषुः त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम अन्तरिक्षचरीह्यस्मि कामतो विचरामि च अतुलामाप्नुहि प्रीतिम्। तत्र, तत्र भीमसेन उवाच एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः अनिविष्टश्च तन्माहम् जेतकोन्वद्या प्रभवन्निह राक्षसी को हि सुप्तानिमान् भ्रातृन् दत्त्वा राक्षसभोजनं मातरं च नरो गच्छेत् कामार्त इव मद्विधः राक्षस्य उवाच यत्ते प्रियं तत् करिष्ये सर्वानेतान् प्रबोधया मोक्षयिष्याम्यहं कामम् राक्षसात् पुरुषाधकात् भीमसेन उवाच सुखसुप्तान् वने भ्रातॄन् मातरं चैव राक्षसी न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः न मे राक्षसा सोड़ुम शक्ता पराक्रम न मनुष्या न न गर्वा नक्षाचारुलोचने गिठ्रे वा यद्वा तत्कु तम वा प्रेशय तन्वी भ्रातर पुरकते आदिपर्णि हिडिबवधपर्वण भीम हिडिबा संवादपंचाशदतमोध्याय